श्रीरामलघुमहिम्नस्तोत्रम् श्रीगणेशाय नमः श्रीरामाय नमः अथ मङ्गलाचरणम् स्वर्गीयभोगास्पदलक्षवृत्तिषु साध्याद्यसाध्यादिवियोगतन्तुषु आनन्दरूपे ्यनवस्थितं हि मे मादस्त्वदाराधनलोलुपं मनः रामं सदानन्दमयं परेशं सच्चिन्मयं वाङ्मयदिव्यरूपम् अग्निं नभस्तं युदनादबिन्दुबीजस्वरूपं सततं नमामि अध राम, लखु रामलघुमहिम्नस्तोत्रम् रमन्दे यस्मिन् ते मुनिवरगणासिद्धनिगरायमानन्दाकारं सकलजगदारनिलयं न मन्दित्रयीवर्गास्त्रिगुणमयतत्त्वादिकिरणम् मेव श्रीरामम् स्मर हरनुतं नौमि सततम् प्रकाशोराकारप्रकृतिमयरूपो हरनुदो विमर्शश्चैवासौ विकृधि जतनुर्माक्षरपदः विसर्गाकारश्चिन्मय परमः सत् त्मकतनुः परं दिव्यं रामं स्मरहरनुदं नौमि सततं पुनः श्रीराकारो दहननिलयो रक्तवदनो मकारशुद्धाभशधरतनुर्नित्यधवलः तयोर्योगाद्रामेदि भवति महातारकमनोर्महारूपं रामं स्मरहरनुदं नौमि सततम् जगन्माया दिव्या परमजनो राक्षरमयी शिवो ब्रह्माकारपरमजनको माक्षरमयः उभौ तौ रामेतीह जगदि सदा संविलसतः शिवाकाररामं स्मरहरनुदं नौमि सततम् महारेफातेजो गगनमपि चाकारसुलिपेः सदानन्दाच्चदं च सलिलमकराद्वसुमती विसर्गाद्वायूरा म इति किल तत्त्वात्मकमनुः सतत्वं श्रीरामं स्मरकरनुदं नौमि सततं परो राकारो वै भुवनरचनाद्यङ्गुरमयो मकारो ब्रह्माण्डो भवनि किल बीजादिवि महामन्त्रो परतर परतरबीजाङ्गुरमयस्तमादि श्रीरामं स्मरहरनुधं नौमि सततं भुवां कुण्डलाख्या भुजगसदृशीराक्षरमयी मकाराक्षलीनं नभसि शशिनो मण्डलमपि महायोगाद्या सा शुभहठमयो रामपदवी सुयोगे सं रामं स्मर हरनुदं नौमि सतदम् ज्वलश्रीराकारो निखिलजनसम्बत्प्रदलिपिर्मकारशिदाक्षो निज सकलतत्वादिजनकः अभू श्रीमद्रामेदि जमनु जमनुमहेशम् श्रीरामं स्मरहरनुदम् नौमि सततम् परशिरूपाक्षकहरिहर शक्त्यङ्कनिकरो महोग्राख्याधाराकृतिरपि च तदो मौकाराक्ष खलु परमहेशावयवकः शुभौ सीतारामौ स्मरहरनुतौ नौमि सततं स्वबीजं रामं ज्ञेयुदमथ नियोज्यापि भवेन्मन्द्रो दिव्यः परमसुखद्धः पट्लिपिमयः महाविद्यादा यमभयहरः सर्वधनदः षडे संमम् स्मरकरनुदं नौमि सततम् प्रपातारान्ध्यस्ता तदनुहृदयाख्यं शुभपदं तदो ङेन्द्यश्च परमशिवेशीप्रणवकः महासम्बद्धादा भुवनविजयाष्टाक्षरमनुः शुभष्टार्णम् रामं स्मरहरनुदम् नौमि सततम् महातारो माया तदनुकमला सा शुभवाणी पश्चात् परम निजबीजं मनुवरं षडर्नोयमन्त्रो भवति जपदामिष्टजनकः सुबीजाख्यं रामं स्मरहरनुदं नौमि सततं मनोज्ञं षट्कोणं च वसुदलयुग्मं शुभकरं त्रिवृत्तम् तद्वाह्येऽर्कदलकमलं फोडशतलं तदोद्वात्रिंशत्कं तदनुधरणी चक्रकुतकं तदन्धत्तं रामं नौमि सततं स्ववामो रौ वामं स्वकरकमलं ज्ञामुद्रं दधतमपि वीरासनगतं खनश्यामं भ्राजन्मणि मुकुडमापीदवसनं ससीतं श्रीरामं स्मरहरनुदं नौमि सततं इदं स्तोत्रं रामेदि सुमनुसमुद्धारणयुधम् ध्यानो सहितं प्रसादार्थं रामस्य ननुधनशंशेरचितं क्षमार्थं श्रीरामं स्मर करनुदं नौमि सततम् इति श्रीधन शंशेरजङ्गवर्मणा विरचितं वीरेन्द्रकेशरिन् शर्मणा संशोधितं श्रीरामलघुमहिम्नस्तोत्रम् ओ